अथर्वेदे तृतीयाष्टके पञ्चमोऽध्यायः ॐ विश्वानरायमीढुषे सदोषाः कथादाशे वाग्नृहद्भाः अरोनेन बृहदा वक्षसेनोपस्तभायतु ममिन्न रोधाः मानिन्द्रदय इमाम् मह्यम् रातिन् देवो ददौ मर्त्या आजस्वधावान् पाका आजकृत्सो अमृतो विचेता वैश्वानरो नृतमो जह्वो अग्निः सा मद्विमर्हा महिदिग्मभृष्टिः सहस्रदेता वृषभस्तु विष्मान् फलन्न गोरपगोल्ढम् विभिद्वानग्निर्मह्यम् प्रेतुवोचन्मनीषाम् व्रता अग्निर्भभसत् दिग्मजम् भस्तपिष्ठेन शोचिषायः सुराधाः प्रजे मिनन्ति वरुणस्य धाम प्रियामित्रस्य चेततो ध्रुवाणी अभ्रातरो न यो षणोऽव्यन्तः पतिरिपो न जनयो दुरेवाः पापासः सन्तो अनृता असत्या इदम् पदमजनता इदम् मेहे अग्ने कियते पापका विहते गुरुम् भारन्न मन्म बृहद्दधाथ दृशताकभीरम् यक्मम् प्रयसा प्रयसा सप्तधाः तमिन्भे एव समनासमानमभिकृत्वा पुनते धीतिरश्याः ससस्य चम् मन्नसि चारु पृश्नेरग्रेरुप आरुपितञ्जपाहारु आर। प्रवाच्यम् वदसः किं मेः अस्य गुहाः हितमुपनिग्वदन्ति यदुः श्रियाः नाम पवारि वौरन्पाति प्रियम् नृपो मातुष्परे परमे अन्तिषद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ऋतम् बोचे नमसा पृच्छ्यमानस्तपाशसा आजातवेदो यदीदम् त्वमस्य क्षयसि यद्ध विश्वम् दिवि यदु द्रविडञ पृथिव्याम् वोचो जातवेदश्चिकित्तान् गुहाध्वनः परमय्यन्नोः अस्य रेकुपदम् न निदाना अगन्म का मर्यादा आपयुना कद्ध वाममच्छा आगमेम रघवो न वाजम् कदा नोः देवीरमृतस्य पत्नीः सोरो वर्णे एन ततनन्नुशासाः अधिरेण अधा ते अग्ने किमिहा वदन्त्यनायुधास आसतासचन्ताम् अस्य श्रिये समिधानस्य वृष्णोपसोरने कन्दम आरुरोच ऋषद्वसाहानसुदृशी एकरूपः क्षितिर्न राजा पुरुवारो अद्य ऊत ऊर्ध्व ऊषुणो अध्वरस्य होतरग्ने तिष्ठदेवता तायजीयाय त्वम्भ्यविश्वमभ्यसिमन्मप्रवेधसश्चित्तिरसि मनीषाम् अमोहो रोहो तान्यसादिविक्ष्वा अग्निर्मन्द्रो विदधेशु प्रजे एताः ऊर्ध्वम् भानुम् सविदेवाः श्रेन्मेते एव धूमम् स्तभायदुपद्याम् यता पुरुःस्वरन्नवजानाक्रः पश्वो अनग्निसुधितः सुमेकाः स्तीर्णे बर्हिषि सविधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणोऽस्थात् पर्यग्निः पशुपानहोता त्रिविष्टे एति प्रतिप उराणः परित्मनाः मितद्रुदेति होताग्निर्मन्द्रो मधुवचारितावाः द्रवन्त्यस्य वाजिनो न शोकाभजन्ते विश्वा भुवनायदभ्राट् भद्राते ए अग्ने स्वनेकसन्द्रग्घोरस्य सतो विशुणस्य चारोः न यत्ते एशोतिस्तमसावरन्तस्मारस्पन्वीरेप आधोः न यस्य सा तुर्जनितो रवा आरिनमातराः पितरा नोचिदिष्टौ अधा मित्रो न सुधितः पावकोग्निर्देयेताजमानुषेषु विक्षु गिर्यम् पञ्चजीजनन् सम्बसारास्वसारो अग्निम् मानुषेषु विक्षुषर्बुधमधर्यो ओनदन्तम् शुक्रम् स्वासम् परशुन्नतिग्मम् तवत्ये अग्ने हरितो घृतस्नारोहिता सर्ज्वञ्चस्वञ्चाह अरुषासो वृषणरुजुमुष्टाः देवताः तिमह्वन्त तस्माः ये हत्येते सहमाना अयासस्वेशासो अग्ने अर्चयश्चरन्ति श्येनासो रधुवसरासोऽर्थम् तु विस्मरसोमारुतन्नशर्धाः अगाहारिब्रह्म समिधा न तुभ्यंशंसाः त्युक्थम् यजते व्यूथाः ओतारमग्निम् मनुषो निषे दुर्नमस्यन्त उशिजश्यं समायोः अयमिह प्रथमोधा आजिधातृभिर्होता यो अध्वरेष्वीड्याः यमप्रमाणो भृगवो विरुचुर्वनेषु विरु चित्रम् विभ्रम् विशे विशे अग्ने एकदात आनुषग्भुवद्देवस्य चेतनम् अथा हि त्वा कृतावा आनम् विचेतसम्पश्यन्तोद्यामि वस्त्रुभिः विश्वे एषा मध्वराणाम् एदमे आशुन्दूतम् विवस्मतो विश्वायश्चर्षणीरभि आजभ्रुः केतुमाजवो भृगवाणम् विशे विशे तमीम् होतारमानुषच्चिकित्ताम् सन्निशे रणम्बाः बकशो चिशयिष्ठम् सप्तधामभिः तम् शश्वतेषु मातृशुभरावीतमश्रितम् चित्रम् सन्तम् गुहा आहितम् सुवेदम् गोचिदर्थिनम् ससस्येद्वियुतासस्मिन्नोदम् धृतस्य धामम् ऋणयन्द्रदेवाः महार्नमसा रातहौ यो वेरध्वराय समिधृतावाः वेदध्वरस्य दूत्यानि विद्वानुभे अन्तारोदसे सञ्चिचित्वान् दूतगीयसे प्रतिव उराणो विदुष्टरो दिव आरोधनानि कृष्णन्त ए मरुषतः पुरोभाश्च रिष्वा अर्चनुवकुशाभिदेकम् यदप्रवीता रदते ह भवसे तु दूतः सद्यो जातस्य ददृशा वातो अनुवाति शोचिः ृणति जिग्मामतसेषु जिह्वाम् स्थिरा चिदन्नाः जयते विजम्भैः तृषु यदन्नाः तृषुणाः बवक्षतृषम् दूतम् कृणुते जह्वो अग्निः वा तस्य मेडिम् सजते निजोऽर्वन्नाशुन्नवा जयते हिन्वे अर्वाः दूतम् भो विश्ववेदसंहव्यवाहममध्यम् यजिष्ठमृञ्जसे गिरा स हि वेदा वसुधितिम् महाम् आरोधनम् दिवः स देवाङ्गेहवक्षति स वे एतदेव आनमम् देवाङ्कृतायते तमे ए दाति प्रियाणि चिद्वसु स होतासेतुदूत्यम् चिकित्त्वा अन्तरीयते विद्वाङ् आरोधनम् दिवः ते स्यामये अग्नये एतदाशुर्हव्यदातिभिः य ईम् पुष्यन्त इन्धते ते राजा ते सुवीर्यैः स सवांसोऽभिशृण्विरे ये, ये अग्नादधिरे दुभाः अस्मे राजो दिवे दिवे सञ्चरन्तु अस्मे अस्मेवाजाः स ईरताम् स विप्रश्चर्षणीनाम् शवसामानुषाणाम् अतिक्षिप्रेव विध्यति अग्नेः वृणमहाङ्गसिय ईमादेः प्रयुञ्जनम् ये च स मानुषेषु दोढभो भिक्षुप्रापेण मत्यः दूतो विश्वे एषाम्भुवत् ससद् न होता मंद्रो उत पोता निषेजति उतना अग्निरध्वर उतो गृहपतिर्दवे ए उत ब्रह्मा निषेजति ेषे त्वस्य दूत्या इञ्जस्य हव्यं अध्वरम् हव्यम् अर्तस्य वोल्लवे अस्माकम् जोष्यध्वरमस्माकम् यज्ञमङ्गिरः अस्माकम् शृणुधेहवम् परिते दूलभोरथोऽस्माम् अश्नोतु विश्वताः येन रक्षसि दाशुषाः अग्नेतमद्याश्वन्नस्तोमैः कृतुम् प्रध्यामातरोहैः अथा ह्यग्ने क्रतोर्भद्रस्य रक्षस्य साधोः रथेरथस्य बृहतो बभूथा एभिर्नो अर्कैर्भवा नो अर्वां स्वा अर्णर्ज्योतिः अग्ने विश्वेभिः सुमनानीकैः आभीष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम प्रते दिवो नस्तनयन्ति सुष्माः तव स्वादिष्ठाग्नेसन्दृष्टिरिदाचिदह्न इदाचिदक्तोः श्रिये रुक्मोनरो चत उपाके घृतम् न पूतम् तनूररेपाश्रुचिहिरण्यम् तत्ते रुक्मोनरोचतस्वधावः कृतञ्चिद्ध्युष्मासने विद्वेषो ज्ञ इनोऽमर्तात् इच्छायजमानाधृतावः शिवानः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे सानोना नो नाभिः सदने सस्मिन्नो धन् भद्रन्ते अग्ने सह सिन्ननीकमुपाक आरोचते सूर्यस्य ऋषदृशे दृशेणक्तया चिदरुक्षितम् दृश आरूपे अन्नम् विषाह्यग्ने गृणते मनीषाम् विश्वेभिर्यद्वावनः शुक्रदेवैस्तन्नो रास्वसुमहो भूरिमन्मा त्वदग्नेकाव्यात्मन्मनीशास्त्वदुःधायन्ते राध्यानि त्वदेदिद्रविणं वीरपेश इत्थाधियेताशुषे मर्त्याय त्वद्वाजीवाजम्भरो विहाया अभिष्टिकृयसे सत्यशुष्मः तद्रयुर्देवजो तोमजो भुस्पदाशुर्जोजुवाग्ने अर्वाः त्वामग्ने प्रथमम् देपयन्तो देवम् मर्ता अमृतमन्द्रजिह्वम् देशो युतमाविवासन्ति धेभिर्दमो न सङ्ग्रहवति मूरम् आरे अस्मदमतिमारे अम्भ आरे विश्वा दुर्मीयन्निपासे दोषा शिवः सहसूनो अग्नेयम् देव आचित्सचसे स्वस्ति यस्तामग्न इनधते यतस्रुत्रिस्ते अन्नम् कृणवत्सस्मिन्नहन् सद्युम् नैरभ्यस्तु प्रस क्षत्तवक्रत्वा जातवेदश्चि महो अग्ने अनीकमासपर्यन् स इधानः प्रतिदोषामुषा सम्पुष्यन्द्रयिंसजते घण्ण मित्रान् अग्निरेवेशे परमस्य राजः दधा आदिरत्नम् विधते यविष्ठोऽव्याः नृषङ्गत्याः यस्वधावान् यच्चिद्धिरे पुरुषस्त्राय विष्ठाचित्तिभिश्च क्रमागच्छिरागाः कृधीष्वा अस्माङ्गलितेरना गाङ्गेनाहम् शिशिश्रो विश्वगग्ने महश्चिरग्नेन स्व अभिकपूर्वाद्देवानामुतमत्याः नाम् आ ते सखायः स न विदृशामयच्छातोयतनयायशंयोः यथा आहत्यद्वसवो गौर्यञ्चित्पदिशिता ममुञ्चरायजत्राः एवोऽश्वा अस्मन्मुञ्चदाव्यम् हतार्यज्ञे या तमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ऊर्ध्वम् भानुम् सविता देवो अश्रे द्रप्सन्दविद्भद्गविशो सत्ता अनूरतम् वरुणो यन्ति मित्रो यच्छोर्यम् दिव्या आरोहयन्ति यम् श्रीमकृन्तमसे विभृते ध्रुवक्षे वा अनपस्यन्तोऽर्थम् म् सूर्यम् हरितः सप्तयःपशम् विश्वस्य जगतो वहन्ति वहिष्ठेऽभिर्विहरन्याचितन्तुमवव्ययन्नसि तन्दे भव स्म न विध्वतो रश्मयः सूर्यस्य धर्मे वास्तमो अप्स्वा अन्तः अनायतो अनिबद्धः कथायन्यम् वुत्तानोपपद्यतेन कया याति स्वधया कोददर्शदिवः स्कम्भः प्रत्यग्निरुषसो जातवेदाक्षद्देवो रोदमानामहोभिः आनाः सत्योरुगाया रथे नेमञ्यज्ञमुपनो यातमच्छा ऊर्ध्वम् धेतुम् सविता देवोऽश्रेज्योतिर्विश्वस्मै भुवनाय खृण्डवन् आप्राद्यावा पृथिवी आप अन्तरिक्षम् विसूर्यो रश्मिभिश्चेकितानः आवहन्ति रुडेर्ज्योतिषागान्महे चित्रा रश्मिभिश्चेकिताना प्रबोधयन्ति सुविदाय देव्यो उषायीयते सुजुजारथेन आवाम् वहिष्ठा इहते वहन्तु रथा अश्वाः स उषसोऽ व्युष्टौ इमे हि वाहम् वधुतेयायसो माः अस्मिन् कया आयाति स्वथया कोददर्शदिवः स्कम्भः समृतः पातिनाकम् अग्निर्होता अध्वरे वादी सम्परिणीयते देवो देवेषु यज्ञयाः परित्रिविष्ट्यध्वरम् यात्यग्निरथीरिव आ देवेषु प्रयोदधत् परिमादपतिः कविरग्निरहव्यान्यक्रमीत न सद्रत्ना आनिदाशुषे अयञ्यः सृञ्जये पुरोदयैव वाते समिध्यते युमाम् अमित्रदम्भनः अस्य घा वीर इव तोग्नेरीशीतमर्त्याः तिग्मजम् रस्य मील्लुषाः तमर्वम् तन्मसाषिन्न दिवः दिवे दिवे बोधद्यन्वाहरिभ्याम् अच्छारहूत उदरम् उत त्याय जता हरि कुमारात्साह देव्यात् प्रयता सद्य आददे एष वाहन्देवावश्विना कुमारः साह देव्यः दीर्घाजुरस्तु सोमकः कञ्युवन्देवावश्विनाकुमारम् साह देव्यम् दीर्घाजुशङ्कृनोतन आसत्यो यातु मघवाङ्कृजीषे द्रवम् त्वस्य हरय उपनः तस्माहि दन्धः सुषुमा सुदक्षमिहाभिवित्तम् करते गृणानः अपस्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यैः शंसा अत्युत्थमुशने वेदाश्चिकिदुषे असुर्यायमन्मा कविर्नलिन्यम् विदथा निषाधम् विषायच्छेकम् विपानो अर्चात् दिव इत्थाय जनत्सप्तकारो नन्धाः चिच्चक्रुर्वजुनाः कृणन्ताः स्वा अर्यद्वेति सुदृशीकमर्कैर्महिज्योतिरुरुचुर्यद्धवस्तोः अन्धातमाम् सिरुधिता विचक्षेरुभ्यश्चकारकृतमो अभीष्टौ वक्ष इन्द्रो अमितमृजीष्यू उभे आपप्रदसी महित्ता अतश्चिदस्य महिमाभिरेत्यभिजो विश्वा भुवना विश्वानि शक्रो नर्याणि विद्वानपोरिरे च सखिभिर्निकामैः अश्मानञ्चिद्येऽपि भिदुर्वचोभिर्वृतम् गोमन्तमुषिजोऽपि अपो वृत्रम् गौविवाम् सम्पराहन्प्रावत्ते वज्रम् पृथिवे सचेताः प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवम् चरसाशूरधृष्णो अपोयद्रिम् पुरुहो तदर्दराविर्भुवत्सरमा आपूर्यन्देरे स नो नेतावाजमादर्शिभूरिम् गोत्रा रुजन्नङ्गिरोभिर्गृणानः अर्चा कविन्द्रमणोगा अभिष्टौ स्पर्शातामखवन्नाथमानम् ओतिभिस्तमिषणोद्युम्न हो ऊतौरिमायावानब्रह्मादस्युदत्ता आदस्युभ्यामनसा जाह्यस्तम्भुवत्ते कुच्छः सख्ये स्वेयो नौ निषतम् सरोतजिद्धनारी यासि कुत्से सरथमवस्यु स्तोदो वा तस्य हरियोरीशानज्रावाजन्नगद्यञ्जुशविर्यदहन् पार्यायभूषात् कुत्सायशुष्णमशुषन्निवर्गे पुरवित्वे अर्धः कुलवम् सहस्राः सद्योदस्योन्पृणकुत्स्येन प्रसूरश्चक्रम् बृहतादभीके त्वम् विप्रुम् मृगयंसोऽशुवांसमृजे वैदथिनागरन्धेः पञ्चाशत्कृष्णानि मपःसहस्रात्कन्नपुरोजनिमा विदब्धः सूर उपाके तन्वा अन्दधाः नो वियत्ते चेत्यमृतस्य वर्पाः मृगो न हस्तेत विषे मुषाण श्रवस्य पश्य शमानासमुक्थैरो को नरण्वा सुदृशी पुष्टिः तमिद्व इन्द्रम् सुहवम् भुवे मयस्ता चकार्याः पुरोणे व्योमापते दरित्रे गद्यिन्मक्षो वाजम्भरति स्पार्हराधाः तिग्माय दन्तरशनिष्पदातिकस्मिंचिच्छोरमुहुके जनानाम् घोराय दर्व्यसमृतिर्भवात्तिथस्मानस्तन्दो बोधिगोपाः भुवो विता वामदेवस्य धीनाम्भुवः सखा ऋको बाजसातौ त्वामरुप्रमजमाजगन्मो रुषंसो दरित्रे विश्वरस्याः एभिर्नृभिरिन्द्रत्वाजुभिष्वामखवद्भिर्मखवन्विश्व फ्यंद्र आदौ व्यावो नद्युम्नैरभिसन्दो अर्यः क्षपो मदेव शरदश्च पूर्वीः एवेदिन्द्रायवृषभाय वृष्णे ब्रह्मा कर्मभृगभोनरथम् नो चिद्यथा नः सख्याभियोषतसन्न उग्रोपितातरूपाः नोष्टुत इन्द्र नो गृणान इषम् चरित्रे नद्योनपीपेः अकारिते हरियो ब्रह्मणव्यम् धियास्यामरथ्यः स दासाः त्वम् महाङ्गिन्द्र तुभ्यम् रक्षा अनुक्षत्रम् ब्रह्मनामन्यतद्योः ृत्रम् शवसा च खन्वान् सृजस्सिन्धोङ्नाजग्रसानान् तवत्पिशोजनिमन्द्रे च तद्यौरे जद्भूमिर्भ्यसा स्वस्य मन्योः गायन्त सुभ्वा वदे वृत्रम् वज्रेण मन्दसाधः सरन्ना पोजवसा हतवृष्णीः सुवीरस्ते जनितामन्यतद्योरिन्द्रस्य कर्ता स्वपस्तमोऽभूत् यई स्वर्यम् सुवज्रमनपच्युतम् सदसोनभूमा य एक इचापयति प्रभो महाराजाः कृष्णीनाम् पुरुहूत सत्रासोमाः अपमन्नस्य विश्वे सत्रा मदाः सो बृहतो मदिष्ठाः सत्राभवो वसुभर्वसो नान्दत्रे विश्वाः अधिथ इन्द्रकृष्टेः त्वमधप्रसमञ्जायमानो मे विश्वाः अधिथ इन्द्रकृष्टेः त्वम् प्रतिप्रवत आशयाः नमहिं वज्रेणमघवन्विवृष्टः सत्राः नन्दाधृषिन्तुम् रवीन्द्रम् महामपारम् हन्तायो वृत्रम् सनि तोतवाचन्दाताः मघानि मघवाः सुराधाः अयम् मृतश्चातयते समीचीर्य आदिषु मघवाः शृण्व एकाः अयम् वाजम् भरतिख्ये अयम् शृण्वे अथ चन्नृतघ्नन्नयमुदप्रकृणुते युधागाः यदा सत्यम् कृणुते मन्युमिन्द्रो विश्वम् निर्लम्भयत एतदस्मात् समिन्द्रो गा अजयत्संभिरण्यासमश्विया मघवायोः पूर्वीः हेऽरन्द्रभिर्नृतमो अस्य शाकैराजोऽ विभक्ता सम्भरश्चवस्वाः कियत्स्विरिन्द्रो अध्येति मातुः कियत्पितर्जनितुर्यो जाना यो अस्य शष्मम् हुकैर्यर्ति वातो न ज्योतस्तनयद्भिरभ्रैः क्षियन्तम् त्वमक्षियन्तम् कृणोति यत्तिरेणम् मघवासमोऽहम् इभम् चतुरसनिभाङ्गिपद्यौ ऋतस्तोतारम् अखवापसौधात् अयम् चक्रमिषणत्सौर्यस्य न्येतशं वीरमत्सश्रमाणम् आकृष्ण एञ्जुहुराणो जिघर्तित्वचो बुद्धेरजसो अस्य योनौ असि ज्ञां यजमानो अश्वायन्तो वृषणम् वाजयन्तः ीयन्तो जनितामक्षितोधिमाच्या वयामो बते न कोशम् त्राता नो बोधिदृशा न आविरभिख्यातामर्जिता सोम्यानाम् सखाः पिता पितृतमस्ति द्रोणाम् कर्ते मुरु वंशते वयोधाः सखीयतामपिता बोधि सखाः कृणान इन्द्रस्तु बते वयोधाः वयम् ह्याते च कृमास स्तुत इन्द्रो मघवायद्धवृत्राभूरेण्येको अप्रतिनिहन्ति अस्य प्रियोजिता यस्य शर्मन्न किर्देवा वारयन्तेन एवान इन्द्रो मघवाभिरप्श्यीकरत्सत्यादर्षमेथिलनर्वा त्वम् राजा जनुषा यस्मे हरिश्रभोमाहि नोस्कृत इन्द्र नो गृणा ओ इषञ्जरित्रे नद्यो ॐनपीपेः अकारिते हरिवो ब्रह्मणव्यम् धियास्यामरथ्यः स दासाः अयम् पन्था अनुवित्तः पुराणो यतो देवा उदयायन्तविश्वे अतश्चिदायनिशेष्टप्रवृद्धो मातरममुनापत्तवेकः नाहमतो निरया दुर्गहैतप्तिरश्चता आपार्श्वान्निर्गमाणि बहूनि मे अकृता कृत्वा आ नियुध्यै त्वेन सन्तेन पृच्छै परायते मातरमन्वचष्टननानुगाम्यनुनो गमानि तुष्टुर्गृहे अपि वत्सो ममिन्द्रश्यत धन्यम् महेन्मस्य प्रतिमानमस्त्यन्तर्जाते शूदये जनित्वाः अपद्यमिव मन्यमाना गुहाः करीन्द्रम् माता वीर्येणान्यष्टम् अथोदस्थात् स्वयमत्कम्बसाः न आरोदश्री अपृणाज्जायमानः एता अर्षन्त्य ललाभवन्तेरदतापरैरिव सङ्क्रोशमानाः एता विप्रच्छकिमिदम् भनन्ति कमापो अद्रिम् परिधिम् भृजन्ति किमुष्विदस्मै निविदो घनन्तेन्द्रस्यापद्यन्दिशन्तापाः ममैतान् पुत्रो महतापथेन वृत्रम् च खण्डवाङ्सिन्धोर् मम चलत्त्वा युवतिः परा स मम चलत्त्वाः कुशवाः जकारा मम चिदा वे मम मृड्युर्ममच्चिदिन्द्रस्य हसोदतिष्ठत् मम चलते मघवन्दनम् सोनिर्विद्वामवहनो जघान अथ निविद्ध उत्तरो बभूवाञ्छिरोः दासस्य सम्विणग्वेन दृष्टिः सोभस्थविरन्तमागामना दृश्यम् मृषमन्तुम् रवीन्द्रम् अरेह्म् वत्सञ्चरथाय माता स्वयम् गातुम् तन्व इच्छमाहनम् माता महिषमन्ववेन दमीत्वा जहति पुत्रदेवा अर्थाब्रवीद्भृत्रमिन्द्रो हनिष्यन् से विष्णो वितरम् विक्रमस्व कस्ते मातरम् विधवामजक्रच्छयुम् कस्तामजिघाम् सञ्चरन्तम् कस्ते देवोऽधिमार्डीक आसीद्यत्प्राक्षिणाः पितरम् पादगृह्या अवर्त्याशुन आन्त्राणि पेचेन देवेषु विविदे मर्डितारम् अपश्यञ्जाया मम हीयमानामधामे श्ये नो मध्वाजभारा इति तृतीयाष्टके पञ्चमोऽध्यायः